वैशम्पायनुवाच एवमुक्त्वा प्रपन्नाय शुचये भगवान् प्रभुः प्रोवात लोकतत्त्वज्ञो योगी विद्यामनुत्तमाम। धर्मराजाय धीमान्स सव्यास सत्यवती सुतः अनुज्ञाय च कौन्तेयम् तत्रैवान्तरधीयत युधिष्ठिरस्तु धर्मात्मा तद्ब्रह्म मनसा यतः काले काले सदाभ्यसन् स व्यासवाक्यमुदितो वनाद्वैतवनात्ततः ययौ सरस्वती कूले काम्यकम् नाम काननम् तमन्वयोर्महाराज शिक्षाक्षरविशारदाः ब्राह्मणास्तपसा युक्ता यथा ततः काम्यकमासाद्य पुनस्ते न्यविशन्तमहात्मानः सामात्याः स परिच्छदाः तत्र ते न्यमसन् राजन् किञ्चित्कालम् मनस्विनः धनुर्वेद परा वीरा शृण्वन्तो वेदमुत्तमम् चरन्तो मृगयाम् इति श्री महाभारते वन वनपर्वणि अर्जुनागमनपर्ण काम्यकवन गमने ष्ट्रिंशोध्याय